षडादार पङ्केरुकान्तर्विचत् सुषुम्नान्तरालेति ते ज्वलसन्ति सुधामण्डलं द्रावयन्ति पिबन्ति सुधामूर्तिमीडे चिदानन्दरूपा <laughs> ज्वलकोटिबालाकभासारुणाङ्गी सुधावण्यशृङ्गर शोभा विराम किञ्जल्कमद्य विराज त्रिकोणे निषण्णाम् बजे श्रीभवानी <्रिक्रीणा> वर्ण किङ्किनीनु पुरोद्वासि रत्न प्रभालीडराक्षार्द्रपादाब्जयोमम् अजेषाच्युताध्यै स्वरैः सुषोण्णा वराबद्ध वि रजन् महारत्नकाचीकलापं वृत्तमुत्तुङ्गमाणिख्य कुम्भोपम श्रीस्तनद्वन्द्वमम्बाम्बुजाक्षी भजे रुग्धपूर्णाभिरामम् प्रवेदम् महाकारदीपम् सदा प्रस्नुदास्य श्रीशप्रसूनोलसप्तकुदण्डे ज्वलबाण कोदण्डपाशाङ्कुशैश्च जलङ्कणोदा षु ज्वलब्लसन्ति भजे श्रीभवानी शरत्पूर्णचन्द्रप्रभा पूर्णबिम्बाधरस्मेरवक्त्रारविन्दाम् सुशान्ताम् सुरत्नावली हारताटङ्कशोभा महासुप्रसन्नाम् भजे श्री भवानी। Suna-Saputam, Sundar-Brolalatam, Tavaushta-Shreeram, Dharadaksham, Kataksham, Pala-Tela-Sakhanda-Kastooli-Bhoo-Sham, Spurakshimu-Kamboja-Needehamam. Chalamuntalantar, Brahmat-Bhrindha-Bhrindham, Kanasneetadam, Milla-Bhoo-Shojwalam, Eh Spuranamam, श्रीभवानी स्वरूपं कवेदं प्रपञ्चात्पदं चाति सूक्ष्मं प्रसन्नं स्फुरत्वम्बडिम्बस्य सरोजे सदा शक्ति शक्तिः बृन्दैर्वृतां वै सुरचक्रराजोल्लसन्तीं परां राजराजेश्वरित्रे पुरित्वा शिवां गोकरिस्त्व शिवां बाबयाम् भवानी स्तुतिं कर्तुमिच्छावि गुरुस्त्वम् शिवस्त्वं च शक्तिस्त्वमेव त्वमेवासि माता पिता च त्वमेव त्वमेवासि विद्या त्वमेवासि बन्धुद्गतिर्नेमति शरण्ये वरेण्ये सुकारुण्यमु हिरण्योदराद्यैरगण्ये सुपुण्ये अवारण्यभीतेश्च माम् भागिभद्रे नमस्ते नमस्ते नमस्ते भवानी इति मां महर्षि भवानी भुजङ्कंस्तु उदारम् उदा सर्वदा ये जगन्ति न शोकम् न मोघम् न पापम् न